अथ अष्टादशोऽध्यायः अर्जुन उवाच सन्यासस्य महावाः तत्वत्याग से श्री पृथक्केश निषूदन श्रीभगवाच काम्या सन्यास कविदु सर्वकर्मफलत्यागम् प्राहुस्त्यागं विचक्षणा त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपः कर्म न त्याजमिति चापरे निश्चयं शृणुमि तत्र त्यागे भरतसत्तम त्यागो हि पुरुषौ व्याघ्र त्रिविधः सम्प्रकीर्तितः यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञो दानं त्यक्त्वा फलानि च कर्तव्याति मे पाथ निश्चित मत मुद्दम से तो संस कर्मणो नोपद मोहात्स परत्यागमस परिकीर्ति दुखमी यकर्म कायक्लेश त्यजे सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत् कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन सङ्गं त्यक्त्वा फलं चैव सत्यागसात्विको मतः न त्वेष्ट कुशलं कर्म कुशलेनानुषज्यते सत्व समाविष्टो मेधावी छिन्न संशय नि देहृता शक्य त्यक्त कर्मशेष यस्तु कर्म फलत्यागी सीधीये अनिष्टमी मिश्रम चिव क फल भवत्य त्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् पञ्चैतानि महाबाहु कारणानि निबोध मे कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणा अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पंचमं पञ्चमं शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः न्यायं वा विपरीतं वा पञ्चिते तस्य हेतवः तत्रैवं सति कर्तारम् आत्मानं केवलं तु पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः यस्य नागं कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमा लोकान् न हन्ति न निबध्यते ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म वध कर्म संग्रह ज्ञान कर्म च कर्ता गुण भेदत प्रोच्यते गुण रोच्य गुणस युणुतु यनेक भाव्यय अविभक्त विभक्सु ज्ञानं विद्धिसात्विकम् पृथक्त्वेन तु यज्ञानं नानाभावान् पृथक् वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धिराजसम् यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतं नियतं सङ्गरहितं रगद्वेषतकृतम् अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते क्रियते बहुलायासं तद्राजसमुदाहृतम् अनुबन्धं क्षयं हिंसाम् अनपेक्ष च पौरुषं मोहादारभ्यते कर्म यत्तत्तामसमुच्यते मुक्तसङ्गो नहंवादे धृत्युत्साहसमन्वितः सिध्य सिद्यो निर्विकार कर्ता सात्क्य रागी कर्म फल प्रेसु लुब्धो हिंसात्मको शुचि हर्षशोकान्वक कर्ताजसपरिक आयुक्त प्राकृत शठो नैष्कृति कोलस विषादी दीर्घसूत्री च कर्ता तामस उच्यते बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च यावेत्ति बुद्धिस्सा पार्थसात्विकी यया धर्ममधर्मं च कार्यं चाकार्यमेव च अयथावत् प्रजानाति पार्थराजसी अधर्मं धर्ममिति या मन्यते तमसावृता सर्वा विपरीता बुद्धिस् पाथतामसी धृतिया यारयते या मन प्राणेन्द्रियोनाव्यचारिण्याति पाथसात्की यू ययातु कामता धृत्या धारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिस्सा पार्थताजसी यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिस्सा पार्थतामसी सुखं त्विदानीं त्रिविधम् शृणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिनामे मृतोपमं तत्सुखं सात्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् विषयेन्द्रियसंयोगात् यत्तदग्रे मृतोपमं परिनामे विषमिव तत्सुखं सुखं राजसं स्मृतम् यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् न तदस्ति दिविदेवेषु वा पुनः सत्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्र्गुणैः ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः शमोतमस्तपः शौचम् क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्मस्वभावजम् शौर्यं तेजो युद्धे चाप्यपलायनं दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् वैश्यकर्मस्वभावजं परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा तच्छृणु यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततं स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् सहजं कर्म कौन्तेय सरोषमपि न त्यजेत् सर्वारम्भाहिदोषेण धूमेनाग्निरिवावृता असक्तबुद्धिः सर्वत्र जितात्मा विगतः नैष्कर्म्यसिद्धिं परमा संन्यासेनाधिगच्छति सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्ते निष्ठाज्ञानस्य या परा विशुद्धया युक्तो धृत्यात्मानं नियम्य शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युधस्य च विवित्तसेवी लघ्वासि यतवाक्यमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते परा भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् चेतसा सर्वकर्माणि मयि सन्न्यस्य बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि अथ चेत्त्वमहङ्कारात् न श्रोष्यसि विनङ्क्ष्यसि यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे नित्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति स्वभावजेन कौन्तेय निबद्धस्वेन कर्मणा रामयन् सर्वभूतानि यन्त्रारूढानि माय तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितं मन्मनाभवमद्भक्तो मद्याजी मां नमस्कुरु मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः इदं ते ना तपस्काय नाभक्ताय कदाचन न ना चाशुश्रूषवेवाच्यं न च चा मां योभ्यसूयति य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति भक्तिं मयि कृत्वा मामेवैष्यत्यसंशयः नचतस्मान् च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरो भुवि च य धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मेमतिहि मतिः श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तः शुभालोकान् प्राप्नुयात् पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत स्थितोऽस्मि गतसन्देहः करिष्येवचनं तव सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमि मम श्रौषम् अद्भुतं रोमहर्षणं व्यासप्रसादाच्छ्रुतवान् एतद् योगं योगेश्वरात् कृष्णात् साक्षात् कथयत स्वयम् राजं संस्मृत्य संस्मृत्य संवादमिममद्भुतं केशवार्जुनयोः पुण्यम् कृष्यामि च मुहुर्मुहुः रूपमत्यद्भुतं हरे विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवानीतिर्मतिर्मम ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयो नाम अष्टादशोऽध्यायः